बृहदारण्य उपनिषद अध्याणम नयन शाकल्य ओनम विदग्धशाकल्यप्र कदिदेजवल्येदी सहैद निविदा प्रतिपे वैश्वदेवस्य वैश्व्य त्रयश्चत्रि च षडत्रयश्चत्री च सहस्रेत्योमिति होवाच याज्ञवल्क्येदि त्रयस्त्रिगुं षडित्योमिति अोवाच कत्येवदेवा याज्ञवल्क्येदि षडित्योमिति होवाच कत्येवदेवा याज्ञवल्क्ये धित्रय इत्योमिधि होवाच कत्येवदेवा याज्ञवल्क्ये दित्वा वित्योमितिवाच कत्येवदेवा याज्ञवल्क्येत्यध्यर्थ इत्योमिति होवाच कत्येवदेवा याज्ञवल्क्येत्येग इत्योमिति होवाच कदमेते त्रयश्चत्री च शदा त्रयश्चत्री च सहस्रेति सहोवाचमहिमानये वैषमेदे त्रयस्त्रिगुं षत्वेव देव इति कदमेदे त्रयस्त्रिगुं षदित्यष्टवसवयकादश रुद्राद्वादशादित्यास्तयेकत्रिगुं षदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिगुंशाविति कदमे वसव इत्यग्निश्च पृथिवी च चा वायुश्चान्तरिक्षञ्चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु इदं वसु सर्वगुंषितमिति तस्माद्वसव इति कदमे रुद्रा इति दशे पुरुषे प्राणा आत्मैका दशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद् रुद्रा इति कदमादित्या यदि द्वादश वैमासात्संवत्सरस्यैत आदित्या येदे हि सर्वमाददानायन्दिते यदि दघुं इति कदम इन्द्रकदम् प्रजापदिहृदिस्तनयित्नु रेेन्द्रो यज्ञः प्रजा पदिरिधि कदमस्तनयत्नुरित्यशनिरिधि कदमो यज्ञ इति पशव इति कदमे षडित्यग्निश्च पृथिवी च वायुश्चान्तरिक्षञ्चादित्यश्च द्यौश्चैदे षडेदे हीदगं सर्वगं षडिति कदमेदे त्रयो देवा इदीमयेव त्रयो लोका येषु हि मे सर्वे देवा इति कदमौ तौ द्वौ देवा वित्यन्नैव प्राणश्चेदि कदमोऽध्यर्थ इति योऽयं पवत इति तदा हुल्यदयमेक इवैव पवतेथ कदमध्यर्थ इति यदस्मिन्निदगुं सर्वमध्याध्नोते नाध्यर्थ इति कथम एको देव इति प्राण इति सब्रह्मत्यदित्याचक्षते पृथिव्येव यस्यायदनमग्निर् लोको मनो ज्योतिर्यो वैदं पुरुषं विद्यात् सर्वस्यात्मनः परायणगुंस वैवेदिता स्याध्यात्मवल्क्यवेद वा अहं तं पुरुषगं सर्वस्यात्मनःपरायण यमाथ य एवायगं शारीरपुरुषस्स येषवदैव शाकल्यतस्य का देवतेत्यमृदमिति होवाच कामये वस्यायतनगं हृदयल्लोगो मनो ज्योतिर्यो वैदं पुरुषं विद्या सर्वस्यात्मनः परायणगं स वैवेदितास्याध्यात्मवल्क्य वेदवा अगन्धं पुरुषगं सर्वस्यात्मनः परायणं यमाधयवायङ्कामयपुरुषः स एषवदैव शाकल्यतस्य का देवतेति स्त्रिय इति होवाच धूपाण्येव यस्यायतनं चक्षुर्लोको मनो ज्योतिर्यो वैदं पुरुषं विद्या सर्वस्यात्मनः परायणगुं स वै वेदिता स्याद्यात्मवल्क्यवेदवा आखन्तं पुरुषगुं सर्वस्यात्मनःपरायणयमात् ये वा सवादित्ये पुरुषस एषवदैव शाकल्यतस्य का देवतेति आकाश एवयस्याय यस्याय तनघ् श्रोत्रल्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्या सर्वस्यात्मनःपरायणगं स वै वेदिदास्याध्यात्मवल्क्य वेद वा अगन्तं पुरुषगं सर्वस्यात्मनः परायणैयमाधय ये वा यघ्श्रौत्रप्रदिश्रुत्कः पुरुषः स येषवदैव शाकल्यतस्य का देव ते दि दिशा इति तम एव यस्यायतनगं हृदयल्लोगो मनो ज्योतिर्यो वैदं पुरुषं विद्यात् सर्वस्यात्मनःपरायण गं स वैवेदितास्याध्यात्मवल्क्यवेदवा अहं तं पुरुषगं सर्वस्यात्मनः परायणयमाथय एवायञ्चायामयः पुरुषः स जेशवदैवशाकल्य तस्य का देवते मृत्युरितिहोवाच रूपाण्येव यस्यायतनञ्चक्षुर्लोको मनो ज्योतिर्यो वैदं पुरुषविद्यात् सर्वस्यात्मनःपरायणगुंस वै वेदितास्याध्यात्मवल्क्यवेदवा अहन्तं पुरुषगं सर्वस्यात्मनः परायणयमाथय एवाय मादर्शे पुरुषः स येषवदैव साकल्यतस्य का पये वयस्यायदनगं हृदयल्लोको मनोज्यो दैर्यो वैदं पुरुषं विद्या सर्वस्यात्मनःपरायणगुं स वै वेदितास्याध्यात्मवल्क्यवेदवा अहन्तं पुरुषगुं सर्वस्यात्मनःपरायणयमाध्यय एवायमप्सु पुरुषः स एषवदैव शाकल्यतस्य का देवतेऽधि वरुण इति उवाच ह्रेदयेव यस्यायतनगुंहृदयल्लोगो मनोज्यो धीर्यो वैदं पुरुषं विद्यात् सर्वस्यात्मनःपरायणगुंस वै वेदितास्याध्याज्ञवल्क्यवेदवा अहन्तं पुरुषगं सर्वस्यात्मनः परायणयमाधय एवायम्बुत्रमयः पुरुषः स येषवदैव शाकल्यतस्य का देवतेदिप्रजापतिरिदिहोवाच साकल्ये दिहोवाच याज्ञवल्क्यस्त्वाग्स्विति मे ब्राह्मणा वक्षयनमक्रता इति याज्ञवल्क्य दिहोवाच शाकल्यो यदि दं कुरु पञ्चालानां ब्राह्मणा नत्यवधि किं ब्रह्म विद्वान् यदि दिशो वेद सदेवाः सप्रतिष्ठा इति यद् दिशो वेद्य सदेवाः सप्रतिष्ठाः किं देवदोऽस्यां प्राच्यान्दिश्यसीत्यादेवत इति स आधित्यकस्मिन् प्रतिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नुरूपाणि प्रतिष्ठितानीति हृदय इति कोवाचहृदये न हि रूपाणि जानाति हृदयेख्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येव मे वैदध्याज्ञवल्क्य किं देवदोस्यान् दक्षिणायान् दिश्यसीति यमदेवद इति यमकस्मिन् प्रधिष्ठित इति यज्ञ इति कस्मिन्नु यज्ञप्रदिष्ठित इति दक्षिणायामिति कस्मिन्नु दक्षिणाप्रदिष्ठितेदि श्रद्धायामिति यदाह्येव श्रद्धेध दक्षिणान् ददाति श्रद्धाया गह्येव दक्षिणा प्रदिष्ठितेति कस्मिन्नुश्रद्धा प्रदिष्टितेदी। हृदय इति उवाच हृदये न हि जानादी। हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्येव मे वायि तद्याज्ञवल्क्य किं देवदोस्यां प्रतीच्यान् दिश्यसीति वरुणदेवत इति स वरुण इत्यप्स्विति कस्मिन्वापप्रतिष्ठिता इति रेदसीति कस्मिन्नुरेधप्रतिष्ठितमिति हृदय इति तस्मादभिप्रतिरूपं जातमाहुर्हृदयादिव श्रुतो हृदयादिव निर्मिद इति हृदयेक्ष्येव रेधप्रतिष्ठितं भवतीत्येवमेवै दध्याज्ञवल्क्य किं देवदोस्यामुदीच्यान्दिश्यसीति सोमदेवद इति च इदि सोमः कस्मिन् प्रदिष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षाप्रदिष्ठितेधि दी सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति दी। सत्येह्येव दीक्षा प्रतिष्ठितेदि कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति उवाच सत्यं जानाति हृदयेह्येव सत्यं प्रतिष्ठितं भवतीत्येव मे वै दध्याज्ञवल्क्य अखलिके याज्ञवल्क्यो यत्र एतदन्यत्रास्मन्मन्यासै यद्धैदधन्यत्रास्मत्स्याच्छ्वानो वै न दधुर्वयाग्ंसि वैनध्विमध्निरन्निधि कस्मिन्नु त्वञ्चात्मा च प्रदिष्टितौस्त इति प्राणम् इति कस्मिन्नु प्राणप्रदिष्ठित इत्यपान इति यदि व्यान इति कस्मिन्नुव्यानः प्रदिष्टिद इत्युदान इति कस्मिन्नुदानः प्रदिष्टिद इति समान इति स एष नेदि नित्यात्मा गृह्यो गृह्यते शीर्यो न हि सङ्गो न हि सज्यते सितो व्यधतेन ऋष्यत्येदान्यष्टावाय तानान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषास् यस्तान् पुरुषान्निरुह्य प्रत्युह्यात्यक्रामस्तन्त्ववनिषदं पुरुषं पृच्छामि तञ्चेन्मेन विवक्ष्यसि मूर्धादे विपदिष्यदीदि हनमेनेशाकल्यस्तस्य मूर्धा विपपातापि हास्य परिमोषिणोऽस्तीन्यप जह्रुरन्यन्मन्यमानाः हा। अधहोवाच ब्राह्मणभगवन्तो यो हः कामयदे स मा पृच्छतु सर्वे वा मा पृच्छद योः कामयदे तं वः पृच्छामि सर्वान्वा वः पृच्छामीति तेह ब्राह्मणानदधृषुः तान् हैतैः श्लोकैः पप्रच्छ यथा वृक्षो वनस्पति तथैव पुरुषो मृषा तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः त्वज एवास्य रुधिरं पश्यन्ति त्वज उत्पडः तस्मात्तदा तृण्णात्प्रैदि रसो वृक्षादिवाहदात् माघंसान्यस्य शकराणि किनाडघ्स्नावतः स्थिरम् अस्तिन्यन्तरदो दारूणि मज्जा मज्जोपमाकृता यद्वृषो वृक्णो रोहति मूलान्नवतरः पुनः मर्त्यस्विन् मृत्युना मूलात् प्ररोहति रेतस इति मा वोचदजीवतस्तत् प्रजायते इव वै वृक्षोञ्जसा प्रत्यसम्भवः यत्समूलमावृहेयो वृक्षन्न पुनराभवेद् मर्त्यस्मिन्मृत्युना वृह्णकस्मान्मूलात् प्ररोहति जात एव न चायदे को जनयेत् जनयेत्पुनः विज्ञानमानन्दम् ब्रह्मरागिर् धाधुः परायणं तिष्ठमानस्य तद्वित इति तृतीयोऽध्याये नवमं ब्राह्मणम् इति तृतीयोऽध्यायः ओ